द्यूतप्रियश्च कौन्तेयो न च जानाति देवितुम् आहूतश्चैष्यति व्यक्तम् द्यूतादपि रणदपि नियतं तम् विजेष्यामि कृत्वा तु कपटम् विभो आनयामि समृद्धिम् ताम् दिव्याम् चोपाह्वयस्वतम् वैशम्पायन उवाच एवमुक्तः शकुनिना धृतराष्ट्रमिदं वाक्यमपदान्तरमब्रवीत् अयमुत्सहते राजन् श्रियमाहर्तुमक्षवित् द्यूतेन पाण्डुपुत्रस्य तदनुज्ञातुमर्हसि धृतराष्ट्र उवाच क्षत्तामन्त्रीमहाप्राज्ञः स्थितो यस्यास्मि शासने तेन सङ्गम्यवेत्स्यामि कार्यस्यास्यमि स हि पुरस्कृत्य दीर्घदर्शी परं हितम् उभयोः पक्षयोर्युक्तम् वक्ष्यत्यर्थविनिश्चयम् दुर्योधन उवाच निवर्तयिष्यति त्वासौ यदि क्षत्ता समेष्यति निवृत्ते त्वयि राजेन्द्रमरिष्येऽहमसंशयम् स त्वं मयि मृते राजन् विधुरेण सुखी भव भोक्ष्यसे पृथिवीं कृत्सना क्य वैशंपा उच आर्तवाक्यं तणयोक्त निशम्यसह धृतराष्ट्रो ब्रवीत प्रेश्यान दुर्योधनमते स्थि स्थूणा सहस्रैर्बृतीं शतद्वारं सभां मम मनोरमा दर्शनीयाशु कव शिलन ततः संस्तीर्य रत्नैस्ताम् तक्ष्ण आनाय्य सर्वशः सुकृताम् सुप्रवेशाम् च दुर्योधनस्य शान्त्यर्थमिति निश्चित्यभूमिपः धृतराष्ट्रो महाराजप्राहिणो विदुराय वै अपृष्ट्वा विदुरम् स्वस्य नासीत् कश्चिद् विनिश्चयः द्यूते दोषांश्च जानन् स पुत्रस्नेहादकृष्यत तच्छ्रुत्वा विदुरोधीमान् कलिद्वारमुपस्थितम् विनाशमुखमुत्पन्नम् धृतराष्ट्रमुपाद्रवत् सोऽभिगम्य महात्मानम् भ्राता भ्रातरमग्रजम् मूर्ध्ना प्रणम्य चरणाविदम् वचनमब्रवीत्